ृतं सुराध समर्चा शक्रष्टां यं वसु सहस्रे सुरानी अश्व दुर्तरायन्द्रस्य सवितो मही निगवत्सुमते यदि सुतामञ्जिषु आपो ुखादिगोपदाश अनेकम् वो भवानभूतये मध्वाह क्षरम् निधीतया त्वावसो भवानाशलिन्दभुपस्तोत्रेषु दधिरे ो मे स्वध्वरीत्यो नोधरे चन्द्रे सुधान्त्रयः पौरे चिन्दस्मृतम् विभूं राजसोमः पुत्री जृह्लो वासुना सुषे झ नूनम्ब रावधि यद्वा पृथिव्याम् दिवि यानयिन्द्रहरि ब्रह्म हेमद ऋश्वरिश्वेभिरागहि रचिराजोहर योजे ते अश्रिधरो जो वादस्य विप्रादि तेभिर्निदसिम नो नो निघोर योजेभिः स्वरीयसे स्तेवसो विद्यावशूरनव्यधा यथा प्रभजेत सङ्कृत्वे धने यथावसन्दसं व्रजे यथा मघभन्मे अघ्वरे दीर्घनी चेतमूनसि यथा गोदर्ये अशीरासो अद्रिगोमयी गोत्रम् नश्रियम् ौ सारणौ गौ सृष्टिगौ सचाः वार्षद्वारः प्रसन् वंसमासादयच्छिभ्रिमुद्धीतम् सहस्राण्यगिरा सर्गवामृणिस्तोदोदस्य वे मृगाः इन्द्रे चिकिज्जरीषिचोदनः इन्द्रम् यस्य मत्यरिष्टम् तम् न भोजसे यस्मा अर्कम् सप्तशीर्घा नृधातुमुत्तमे पदे स त्वीमाविश्वाभुवनानि विकृनिष्ठपुंश्यम् यो नो दारावसूनाविन्द्रम् बम्भूमहे वयम् जिब्वाह्यस्य सुमतिम् न वीयसीम् गवे मगो मिव्रते यस्मै त्वम्ब सोदानाय शिक्षसि स रायः स्पोषमस्तुते अलम्बावयम्बवन्निन्द्रगर्वणः सुताम् गोहमामहे कदाचनस्तरीरशिलेन्द्रिधासुरे भो वेन्नु माघवन्भुजैन्नुदानम् दे देवस्य पृच्छते प्रयो न रक्षे अभ्योजसा कृष्णम् निघोरयन्त्रम् भेत् प्रथयम् नमो निवादिज्यनिष्ठपार्थिवः ध्यानं विश्वार्यो दातस्यैवं गृहसु स्वामिप्रासो नज प्रदे वृक्षं दोस्ते सुपाना सिन्दवः यथा मनो विपस्वति सोमम् शक्राविवस्तुम् यथान्द्रेच्छन्द्र इन्द्रजोषस्यालो मा जगसेतेन्द्रुमाने अमन्दथाः यथा सोमन्दस्रेतसोऽन्ये स्युमारश्वाजो तोमम् धृषिवाबीपत् तस्मै विष्णश्रीपनरावी च क्रम उपामि त्वस्य धर्माभिः यस्य त्वमिन्द्रोमेक नो बाजे वाजिम् सहकृतो गोधुहो जुहो मसिश्रभस्य वाह नकृत्मन्घवाो रस्वस्य प्रधातुमह तस्मै त्वम् वसोदानायम्भाजेत राजस्पोषामिन्वति वसूजवोपम् सरग्राम् सोमैरिन्द्रम् भवामहे अतः गणप्रयुच्छस्युभे निवासिजन्मानित्यावानन्द्रियमातस्थावस्मै त्वम् भगवन्मिन्द्रिक्षो शिक्षिषे अस्माकम् गिरा पूर्वम् ब्रह्मेन्द्राजमोचर भूर्व्ये रुदुरस्य बृहतीरामेधाः वृक्षेन्द्रो रायो बृहतीराधूनुदधाम् क्षोणीसमु सूर्यम् सं शुक्राधशुजा यस्वङ्गवा शिरः सोमा इन्द्रमन्दिरो ेष्ठम् च वृषभाणाम्भित्तमम् अगमन्दिन्द्रगोपिरमीशानम् राजयीमहे च आयुम् कृत्समधिलो दिवे दिवे अनुवा भजम् हर्यश्वम् सदग्ररुम् वा जयम् दो हवामहे श्वेशाम्रमध्वस्मिञ्जन्त्वद्राजः ये परापति सृन्विरेचनेष्वारे अर्वापतीवः विश्वा द्वेषांसि जयिता भताकृविश्वे सन् भन्त्वावसु श्री त्वेते भोजत्रासो वस्य कृम्पसि णिम् कृप्रगला स्वाभवम् प्रसूति राजर्जे यस्ते साधिष्ठो वा से ते श्यामफरेषु ते वयम् गोत्राभिरुदेवभूतिभिः स स्वांसोमरामहे अहम् युते हरिवो ब्रह्म वाजयुराजिम् यामि सरोतिभिः स्वामिदेव तममे समस्वीनाम् इन्द्रवीर्यम् येभिर्गृणन्ति काराः ते स्तोभम् गौजमावम् घृतश्च तम् प्रौरासो नक्षम् धीरिभिः नक्षम् दयिन्द्रमवसे सुगृदयादेवाम् सुन्दसे यथा यथा घृशदेवास्मे इन्द्रमत्स्वा आ नो विश्वे सजोषसो देवाः शोभनम् सनोपानः सर्वो रुद्राअपासे नागमान् शृण्वन्तु मरुतोभवम् पूजा विष्णुर्भवनस्वचलवन्तु सप्तसिन्धवः आभोवादः पर्वता शो वनस्पतिः शृणोतु राजोऽस्ति ते मा भो नोधिसवाज्यो विनायत्रहान् आदिनो राजा बक्षि सुकृतो वीतिहोत्राभिरुतदेव समाम् स्वविशृम्भिरे संजा अस्मान्नक्ष स्वुशीमिरम् अजम् द इन्द्र सोमे न त्वमस्माकम् स क्रो महि सूरणम् सजम् राधो अहजम् रक्षा जनितो भूरि वे वृका सदम् श्वेताह्नादिभुः सदम् वेणो धर्माणि सदम् मे बल्बस्तु काञ्चम् देवास्थकाण्रन्ताः अश्वासो न आदितस्य चिरनानो न श महि श्रवाः श्यावीरचक्रूशाचनसंरः प्रतिदेकलादो अदर्शहृदयम् योर्म प्राचीना सवाः न स मह्यम् बहुकृतसहस्रादस्य वेदृगाः नित्याः आतम् मेनाम्बीनाम् स्वतम् राधाः विप्राणीयुनकृयैव्यङ्का अश्वाहान्न सुमद्रग्निः शेण बृहत्सूरो अरोचत इमाम् पूर्येण युक्ता आगच्छन् सत्याभिम् तृतीयाम् सवणम् विवाद एकादधात् अस्माकम् यज्ञम् समागम् जुघा वागम् सोम श्रीनाग्नीयम् श्रीनाकृतलम्बाम् मृषभोजिवः पृथिव्याः सहस्रम् भागो गविष्टौ सर्वाता विपध्वै अजलम् वाम्पजातम् विपदम् सोमम् मधुमन्दमस्मे प्रदा स्वाम् संसतीभिः य मृत्विजो बहुधा कल्पयम् दश लघमिमम् वहन्ति योजानो ब्राह्मणो युगा सीता श्वेतात्रैलमानससंविदेवागर्वसविधरेभूतः ज्योतिष्पान्वरम् ऋकरम् सुरम् सुरम्भुविवारम् श्रीरामगायस्वयोगे धिजग्भुवे अतिरिक्तम् विभज्जै रूपां। वरुणा प्रमहेषु तेषु वानाभुरण्यो यत्सुम्भते यजामानाय शिक्षतः ऋष्यो धीरास्तान्वाः वरुणा महिमानामास लोहते सत्यङ्गलिम् द्रावरुणा कृतस्य वामद्वूर्ण्यम् लोहते सप्तवाणी स्वाभिर्दा स्वाम् च मम लोहत्व जीवो वामलब्धो अभिपाधिः पुरुष्यायारवस्ताब्दस्वस्वृतस्य या वामिन्द्रावरुणा कृतस्य रस्ताम् निरमानाय शिक्षकम् अबो दामहे सुहराय सत्यम् देवाभ्याम् महिमानामिन्द्रियम् स्मान् त्रिमिन्द्रावमाकृप्ते वीरबलम् श्रुत इन्द्राय कृषिभो मरीहाम् सुतनालकामके स्थानान्यत्रिनन्द्रधीरायज्ञम् बालास्तप्यवच्यम् न्द्रावरुणासौमनसमृप्तम् रागस्पोषम् जनामानेषु भक्तम् प्रजाम्भूतिमस्मासु भक्तम् दीर्घायुपायप्रदीर्णनायुः अग्ननाया शक्तिभिर्भोतारन्दावृणीमहे आत्मा न हरिष्मजीष्टम् च्छायित्वा सहदसूनो अङ्गिरसृजस्तरम् जध्वरेतगे समीमहे तुेदाः श्रीदाः पावक्याःष्टो अध्वरे श्रीढ्यो वित्रेभिः शुक्रमन्नाभिः ृतकविः ी श्रेमोरास्वश्रोत्रे महान्तोराः यथाने सूर्वालिक्षमिवादहवि अस्रे रक्षस्विने माघसंरः अश्रे रक्षस्तरणे धर्यवेभिः पाहि वायुभिः पारियो अग्निय राहिसृभिरुर्जाम्बते पाहि गृभिर्वसो स्वा गणकरभ्राप्रोग का विद्धि निष्ठम् देवयो गृहम्बावगतम् स्वयम् स्वाचन उपमादेवं सुने स्वम् ेन वंसा मद्रादिशाः सद्भवनो सजीवसुविदाः नो भोज धाग्नि श्रृङ्गेद विद्वद्वासम्भः सोलियो हि ते अग्ने प्रष्टं स्वादं वा जा मे कुमारोहसि हि श्रुधा निजसि स्तमेव श्रुत्य नमहम् दिनश्चि शोजिषा प्राग्ने ऋङ्गमग्निम्बोह्रिम्भुवे वित्तवरिह अग्निम् विनप्राजतसुनये स्वाहो नारञ्जर्गणीयाम् सतते ब्राह्मण्यग्ने सुम् इषण्ष्टमोदरे अग्ने शरी सर्वे सेवादेव रक्षसाः आप्रो शिवान् महाङ्ग रक्षिनाः उभयम् शृण्वत्र न इन्द्रो अर्वादिनम् वदाः सत्राच्च भगवान् सोमरीतधिया सविष्टाग ृढे कामृवाः आम्रे स्वपुरो तस्येन्द्रान्ध्रिद्वाहि त्वा हरिव प्रसृता सहिमदृष्टम् न्द्रावसाः यदेभिः न हि त्वा जम्बि गमनो री पौरो अश्वस्य पुरुषृद्गवासो देवहिरण्यः न गिर्जिलानम् कदाभारेभगम्बसुत्तरे स्वमघवन्दमिष्टय बुद्धिन्दास्वामिष्टरे हस्राणि शराणि च यूथादानायसे आपूरम् धरम् च ग्रमभिप्रा वरीम् शाङ्गायन्दो भसे विप्रो वाची विप्रो वेन्द्रदेवताः स प्रभागामन्योऽहंस उग्रवाहुम् रक्ष कृत्वा पुनम् धर्म यदि मे शृणमध्रवम् वसुग्रवो वसुपतिम् सर्वग्रम् सोमे पापासोहनामहे नारायणो नेन्द्रम् सुधायम् कृ उग्रम् वेदाभ्रीतामो भारिमिदम् न भूरि यस्यान्द्रगर्वः सुतावामहे चन्द्रस्मृतवृस्वानो रेन्द्रो रक्ष्मिधत्सम् समध्यामम् समसा पुनः श्चादरास्व स्वयम् रत्नास्वफले नश्वादनो जलेन् स त्वम् च रक्षितः ीशूरो भगवादे बाहूर्मायजोषणी उक्तैरिन्द्रमाहि नो भद्रं विनो भद्रा इन्द्रः मयुजो असमोरचिप्रभान्योजसा भद्रा इन्द्रस्य रातया अयीरेन चिदर्वादायीरदानुस्य प्रभाच्यमिन्द्रतवीर्याभि करिष्यो भद्रा इन्द्रस्य रातयाः याहि कृणवामद इन्द्रब्रह्मा निर्धना येभिश्वजागरो भद्रमिहस्रावस ते भद्रा इन्द्रस्य राधयाः दृढतश्च सोमै स्वर्जनो नो भिष्टिभूणरो भद्रा इन्द्रस्य भवानुषः दुष्टि रक्षस गोविनः सायम् गृणुतेन भद्रा इन्द्रस्य रातराः विश्वेरैन्द्रवीर्यम् देवाम् दधो भुवो विश्वस्य गोपाजपुरुष्ट भद्रविन्द्रस्य रातराः निर्णेतदिन्द्रते सूपम् देवतातरे यद्धन्धीभृत्रमूजसा सजीवते भद्रा इन्द्रस्य रातराः समाने वपुष्यतः कृतवन्मानोषायुगा विनेतदिन्द्रश्चेत रमन श्रुतो भद्रा इन्द्रस्य रातराः उज्जातविन्द्रते स भवत्वा भूरि गो भूरि वाद्राजेन्द्रस्य रातया संयुज्यावसनिध्याः राजीवाचीतद्रिवो नूनौ चूरमसरे भद्राजेन्द्रस्य रातयाः सत्यमिद्वाभुतम् भजमिन्द्रम् स्तवामृतम् न्दरो भाद्रा इन्द्रस्य आदराः वे महानाहम्बेनः यस्य द्वारा मनुष्विका देवेषु धिया आनये शिवो मानम् नोत्सरन् सोम दृष्टासु अत्रायः ऊक् ब्रह्म जयहंसा स विद्वाङ्गीरो धृन्द्रोगा वृणोदप श्रुजे तदस्य स प्रतृ इन्द्रो वाकस्य भक्ष्मीः शिवो आतमन् मात्रा गन्त्वसे आदौ नु ले स्वाहा वरसे स्वातरमर्कानुषेन्द्रगोत्रस्य दामे इन्द्रे विश्वारि वीराकृ य मार्गाद्भरम् व्योह यत्पाञ्जरञ्जराभिरेन्द्रे गोषा शिक्षया अस्त्रिरा व्यो ओर्जो मानसक्षया ष्टुतिश्च घृषेतावश्चक्रस्य वर्तनि अस्य विष्णोरानगुरुक्रविष्टजीवसे य वह्नपश्वाददे तद्दधानाहवश्यवो युष्माभिर्दक्षपितरः स्याम मरुत्वातो बृहे यथा नर्कविशूरनो महेन्द्रिव अस्मे रुद्रामेह रामरासो राहूतौ सोषाः यः संसदे सुज्र इन्द्रद्वेषा अस्मान् भवन्तु देवाः तो मा कृष्वराधोद्रिव अमब्रह्मो जहि पदा राघसो निबाधस्व महान् प्रति अमे सुतानामेन्द्र त्वमसूतानाम् त्वम् राजाजनानाम् ये ेहि प्रेहि प्रदसि गिरिम् सतवन्तम् सहस्रणम्भ्यो रुरोचितः मधुरमुद्वादिवासु देवम् भवामहे अस्माकं ता मम प्रीणा अस्य वृषभो युवा तु विग्रीवो अनानतः ब्रह्मा कष्टम् स पश्यति कस्य स्वित्सवृषा जिष्वागच्छति गौ श्री ले कन्दे धानाम् सुबीया उक्ते गौ श्रीयम् रामः अयम् देवानुषे जने सोमः पूरुषु सूचते तस्ये हि प्रद्रवापिव अयम् तेषामाचावधिप्रियः आदिन्द मध्यराधसे महे चानुवदा जगृष्वरे ये हि मे रद्रवापिव पागु पागु आजा प्राग्जसेन्दुभिः आजाभिः यद्वा प्रस्रवणे जिवो मादगासे स्वर्णरे यद्वा समुद्रे अन्धसः आद्वादे भूयामि बभोजसे इन्द्रसोपस्य पीतये महाः ेवणेशवस्तु महाग्रजीकृते सुदम् विव सुदामन्तस्त्वा भयम् मृजस्वन्तो हवामहे विजम् नो बलिरासदे यच्चिद्विषस्व कामलीन्द्रदाम् वाहभयम् भवामहे इदम् सौम्यम् मध्वदुःखमग्निर्मनाः दिख्यस्तु ददत्येव अस्मेधे विश्रवो बृह हिरण्यवीनादेवा भगवाहि सहस्रे बृहतीनामधिश्चन्द्रम् बृहत् पृथु शुक्रम् हिरण्यवददे अपादो दुर्गहस्य मे सहस्रेण सुराधसः सो देवेष्वकर यम् दस्तुतसो मेरे भुवे भरणकार्यम् नयम् दुर्ध्वारम् तेन श्रीरामृमरे चिप्रबन्धसः गादृत्याम् यः सक्रो वृक्षो हिरण्यजाः स ऊर्वस्य रेलयत वात्रा विशासूरिसुरे वज्रेषु श्रीतो हर्य स्वयत् यद्भावचोरग्राम् वयम् व्रत इन्द्रम्भरामसिक्रमुक्रम्भरा स चो मे गुरुवद्रिगोमदायजो वा अजमे अजमेन विलाश्चोपीस्माजतमहासुतम् भामूनाम्भूषत श्रुते मृगश्चिदस्य वा रघौ रामशिरापजुमेषु भूषति शेमन्नस्त्वम् विरुषानागीन्द्रप्रजितया न्द्रस्यास्ति कौशयम् तेनोनुगां सोमादेन शुश्रुवे परिवृत्रः अदो महीरदृष्टाश्रयीषीः अदु वृद्राघ्नो अत्रो विश्वान्वे गणराङ्गीन्द्री ेन्द्रब्रह्माणि वृग्रहन् पुरोनमासपुरुभुगवज्जिवो हृन्वहरामसि पूर्वी सिद्धित्वे तु विपूर्मिन्नाशोभवन्त इन्द्रोदराः शिरश्चिधर्यसभोगहि समिष्टश्रुधिमम् प्राविष्मसि न हि त्वदन्यः पूर्वो दश नमघीम त्वन्नो अशामधेरुमस्मसि त्वं नूति तव चित्रिया शिक्षा सोमयिद्वसुतो अस्तु नो मा विभीतन अभेदेशद्भस्वारतिस्वरम् न क्षत्रियादित्यादि भामहे श्रीवाम् अभिष्टये मित्रो नो अत्ययम् हतिम् वरुणः परिषदर्जमा आदित्याः अम्बरोधमस्ति दासुरे आदित्यानामनम् कृते मयि वो महतामन्वान्हे जीवान्न अदिदे धनादित्यासः पुराहसात् कद्धस्तः वनश्रुतः ोचत अस्ति देवाम्बोरुपस्य क्रमनागतः आदित्याद्धूरैरतः मानस्ये दुःसृषेदयम् इन्द्रये सृजवति मानो अमृता देवाः अभितरुचत्वादिुपब्रुवेष्टये पर्षिधिरेकधीराग्रपुत्रे सदः मास्तोकस्य नोनिषत् नेहो न गुरुजिभि प्रसक्तमे अज्रुभाः तेन आमानि सोमोदम् आदित्या ः अस्मदेत्वम् पुराम्बुभुद्महे शश्वप्रचेतसप्रति सह देवाकृ तत्सौनव्यम् सन्न्यासादित्याजन्मोदति बन्धाद्बध्वनिस्माकमस्थिरत्वरादित्यासोश्वरे यूरमस्मभ्यम् मृणः मानो हे निर्विजवस राजित्या कृत्रिमासरोह पुरानुजरसो वधीत् ेष्यम् हतिमादित्याभिसम्भीरम् वेश्वाद्य भाद्रान्नामपि वाचनाः ओ हरिः ओदरे सुम्नातया ष्म विक्रतो विश्वायामु आवत्रा समहित्वा यस्य ते महिला महपरिध्वाजन्दा मी यतो हा सावज्रम् हिरण्यम् विश्वानारस्य भस्परिणान ेवैस्तदर्षणीना भूतिभूरथानाम् अभिष्टा ये सदा रे धान् स्वर्णे सुयम् मला नानारो मात्रेषु सुराजा ईशानम् चिद्वसूनाम् दरिद्राधासे महेन्द्रं चोदामि कीगरे कृष्णीणा यस्य ते सवसानं समज्राः स्वान् शिरे मधनम् हे मृत्सुभद्रिवः यज्ञे धीरीवीर्विर्गर्वणसा इन्द्रदधायम् यस्य ते स्वादुसख्यम् स्वाद्वी प्रणीतिरद्रिव यज्ञो वीतम् तथा पुरुणस्तन्वेदन पुरुक्षया यन्धि जीवसे गुरुम् रथ गुरुम् गव गुरुम् रथा देवली निम्बलामहे उपमारपानरसोमस्य हर्षा तिष्ठम् निःस्वादुराद इन्द्राविन् रोदाद देहजी वृक्षस्य सूरवि आश्वमेदस्य रोहिता सुरथाङ्गादिजिवेष्वभीषु राक्षे आश्वमेधे सुरस्वाङ्गादिजिमयिम् द्रौते वधूमतः स च भूतक्रदौसाम् ऐषु चेदगृषण्त्यन्तर्जेष्वरूषी स्व भीषु प्रसादी युष्मेवाचवो निनत्य सरमत्याः अमध्यमधीधरति ओ